श्वेतपद्मासनादेवी श्वेतपुष्पशोभिता श्वेताम्बरधरा नित्या श्वेतगन्धानुदेपना श्वेताक्षसूत्रहस्ता च श्वेतचन्दनचिता श्वेतवीणाधरा शुभ्र श्वेतालङ्कारभूषिता वन्देता सिद्धगन्धर्वै अर्चिता सुरदारवै पूजिता मुनभिः सर्वे ऋषभे स्तूयते सदा स्तोत्रे लालेन तां देवीं जगद्धात्रीं सरस्वतीं ये स्मरन्ति सर्ववेद्यालभन्ते ते सर्ववेद्या लभन्